अथ द्वादशोऽध्यायः वैशंपायन उवाच अथापरो दृश्यत पाण्डवप्रभुर्विराटराजं तरसा समेवान्तमापतन्तं ददृशे पृथग्जनो विमुक्तमभ्रादिव सूर्यमण्डलम् स वै हयानीक्षत सवैहयानैक्षततांस्ततः समीक्षमाणं ततो ब्रवीताननुगान्नरेश्वरः कुतो यमायाति सवैहयानैक्षततांस्ततः समीक्षमाणं सददर्श ततो ब्रवीत्ताननुगान्नरेश्वरः कुतोऽयमायाति नरोमरोपमः स्वयं हयानीक्षति मामकान्दृढं ध्रुवं हयज्ञो भविता विचक्षणः प्रवेश्यतामेषसमीपमाशु समीपमाशुमे विभाति वीरोहि यथामरस्तथा अभ्येत्य राजानममित्रहाब्रवीज्जयोऽस्तु मे पार्थिव भद्रमस्तु हयेषु युक्तोऽनुपसंमतः सदा तवासूतो निपुणो भवाम्यहम् ददामि यानानि धनं निवेशनं अमाश्वसूतो भवितुं त्वमर्हसि कुतोऽसि कस्यासि कथं त्वमागतः प्रभ्रूहि शिल्पं तव विद्यते च यत् उवाच ददामि यानानि धनं निवेशनं अमाश्वसूतो भवितुं त्वमर्हसि कुतोऽसि कस्यासि कथं त्वमागतः प्रब्रूहि शिल्पं तव विद्यते च यत् नकुल उवाच पञ्चानां पाण्डुपुत्राणां ज्येष्ठो भ्राता युधिष्ठिरः तेनाहमश्वेषु पुरा नियुक्तः अश्वानाम् प्रकृतिं वेद्मि विनयञ्चापि सर्वशः दुष्टानां च कृत्स्नञ्चिकित्सितम् नकातरं कातरं स्यान्ममवम जातु वाहनं न मेस्ति दुष्टा वड वा कुतोहयाः जनस्तु मामाः पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः पठन्तरे मातलिरी देवतेर्दशरथनुपते सुम यमद्नेथ तव शिक्षयाम्यश्वान्धिष्ठिस्त राज नरराज से शतसहसकोटीनाश्वामस्िता पठंतरी तो विराट उवाच यदस्ति किञ्चिन्मनं तदस्तु विराट उवाच यदस्ति किञ्चिन्ममस्तु सर्वं त्वदधीनमद्यवै ये चापि केचिन्मम वाजियोजकास्त्वदाश्रयाः सारथयश्च सन्तु मे इदं तवेष्टं यदि वै सुरोपमाब्रवीहि यत्ते प्रसमीक्षितुं वसु न तेऽनुरूपं हयकर्म विद्यते प्रभासिराजेव हि सम्मतो मम युधिष्ठिरस्येवैः दर्शनेन मे समं तवेदं प्रियमत्र दर्शनं कथन्तु वृत्तिः स वने वसत्यनिन्द्यो रमते पाण्डवः वैशम्पायन उवाच तथा स गंधर्वरोपमो युवा विराटराजा मुदिन पूजिता नैन मने विदु कतंचना प्रियाम विचर त मतराि मत्स्यवसत पांडवा यथाजाघ दर्शनाशरिया विचरंसिताद्रेमी पतुखिता